न्तविभूतये नमः ॐ सर्वभूताशयस्थितात्मने नमः ॐ भूतादये नमः ॐ भूतमध्याय नमः ॐ भूतान्ताय नमः ॐ विष्णवे नमः ॐ अंशुमते नमः ॐ मरीचये नमः ॐ शशिने नमः ॐ सामवेदाय नमः सवाय नमः ॐ मनसे नमः ॐ चेतनाय नमः ॐ शङ्कराय नमः ॐ वित्तेशाय नमः ॐ पावकाय नमः ॐ मेरवे नमः ॐ बृहस्पतये नमः ॐ स्कन्दाय नमः ॐ सागराय नमः ॐ भृगवे नमः ॐ एकाक्षराय नमः ॐ जपयज्ञाय नमः ॐ हिमालयाय नमः ॐ अश्वत्थाय नमः ॐ नारदाय नमः ॐ चित्ररथाय नमः ॐ कपिलमुनय नमः ॐ उच्चैश्रवसे नमः ॐ ऐरावताय नमः ॐ नरादिपाय नमः ॐ वज्राय नमः ॐ कामदुहे नमः ॐ प्रजनकन्दर्पाय नमः ॐ वासुकये नमः ॐ अनन्ताय नमः ॐ मृगेन्द्राय नमः ॐ वैनतेयाय नमः ॐ पवनाय नमः ॐ रामाय नमः ॐ मकराय नमः ॐ जाह्नव्याय नमः ॐ स्वर्गादाय नमः ॐ स्वर्गमध्याय नमः ॐ स्वर्गान्ताय नमः ॐ अध्यात्मविद्यारूपाय नमः ॐ वादाय नमः ओम् अकाराय नमः ॐ वरुणाय नमः ॐ अर्यम्ने नमः ॐ यमाय नमः ॐ प्रदाय नमः ॐ कालाय नमः ॐ द्वन्द्वाय नमः ॐ अक्षयकालाय नमः ॐ विश्वतोमुखदात्रे नमः ॐ सर्वोद्भवाय नमः ॐ सर्वहरमृत्यवे नमः ॐ कीर्तये नमः ॐ श्रिय नमः ॐ वाचे नमः ॐ स्मृत्यय नमः ॐ मेधाय नमः ॐ धृत्यय नमः ॐ क्षमाय नमः ॐ बृहत्साम् नमः ॐ गायत्र्यै नमः ॐ मार्गशीर्षाय नमः ॐ कुसुमाकराय नमः ॐ द्यूताय नमः ॐ तेजस्वितेजसे नमः ॐ जयाय नमः ॐ व्यवसायाय नमः ॐ सत्त्वाय नमः ॐ वासुदेवाय नमः ॐ धनयाय नमः ॐ व्यासाय नमः ॐ उषमसे नमः ॐ नानाविधरूपाय नमः ॐ नानावर्णाकृतिरूपाय नमः ॐ अदृष्टपूर्वाश्चर्यदर्शनाय नमः ॐ देहस्थकृत्स्नजगते नमः ॐ दण्डाय नमः ॐ नीतये नमः ॐ मौनाय नमः ॐ ज्ञानाय नमः भूतबीजाय नमः ॐ व्याप्तचराचराय नमः ॐ स्वतेजःसम्भूतविभूत्यादिमते नमः ॐ एकांशुविष्टब्धकृत्स्नजगते नमः ॐ कमलपात्राक्षाय नमः ॐ अव्ययमहात्म्याय नमः ॐ पार्थप्रार्थितविश्वरूपप्रदर्शकाय नमः ॐ शतरूपाय नमः सहस्ररूपाय नमः ॐ पार्थप्रत्तदिव्यचक्षुषे नमः ॐ अनेकवक्त्रनयनाय नमः ॐ अनेकाद्भुतदर्शनाय नमः ॐ अनेकदिव्याभरणाय नमः ॐ दिव्यानेकोद्यतायुधाय नमः